अथ पञ्चाधिकशततमः सर्गः ततो युद्धपरिश्रान्तम् समरे चिन्तया स्थितम् चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपागम्या ब्रवीद्ममगस्त्यो भगवा ऋषिः राम राम महाबाहो शृणु सनातनम् येन सर्वा नरीन् वत्स समरे विजयिष्यसि आदित्यहृदयम् पुण्यम् सर्वशत्रुविनाशनम् जयावहन् जपेन् नित्यमक्षय्यम् परमम् शिवम् सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् रश्मिमन्तम् समुद्यन्तम् देवासुरनमस्कृतम् पूजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम् सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पातिगभस्तिभिः एष ब्रह्मा विष्णुश्च शिवः स्कन्दः प्रजापतिः पतिः पितरो वसवः साध्याह्यश्विनौ वायुर्वह्निः प्रजाः प्राणऋतुकर्ता प्रभाकरः आदित्यः सविता सूर्यः खगः पूषा सुवर्णसदृशो भानुर्हिरण्य रेतादिवाकरः हरिदश्वः सहस्रार्चिः सप्त सत्यर्मीचि मान् रविः अग्निगर्भोदितेः पुत्रः शङ्खः शिशिरणाशनः व्योमनाथस्तमो भेदीरुग्यजुःसामपारगः घनवृष्टिरपाम् मित्रो विन्ध्यवीथीप्लवङ्गमः तातपीमण्डली मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेज रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणामधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानाम् पतये दिनाधिपतये नमः जयाय जय भद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्याय आदित्यवर्चसे भास्वते सर्वधक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषाम्पतये नमः तप्त हरये विश्वकर्मणे नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे नाशयत्येष वैभूतम् तमे वसृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः एश सुप्तेषु जागर्तिभूतेषु परिनिष्ठितः एष चैवाग्निहोत्रम् देवाश्च क्रतवश्चैव क्रतूनाम् यानि कृत्यानि लोकेषु सर्वेषु परम प्रभुः येनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव पूजयस्वैनमेकाग्रो देवदेवम् जगत्पतिम् जप्त्वा युद्धेषु विजयिष्यति अस्मिन् क्षणे महाबाहो रावणम् त्वम् वधिष्यसि एवमुक्त्वा तदागस्त्यो जगामच यथा गतम् एतच्छ्रुत्वा महातेजा नष्टशोको भवत्तदा धारयामास सुप्रीतो राघवः प्रयतात्मवान् आदित्यम् तु परम् हर्षमवाप्तवान् त्रिराचम्यशुचिर्भूत्वा धनुरादाय वीर्यवान् रावणम् प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन महता वधे तस्य धृतोऽभवत् अथरविरवदम् निरीक्ष्य रामम् मुदितमनाः परमम् प्रहृष्यमाणः निशिचरपति सङ्क्षयम् विदित्वा सुरगणमध्यगतो वचस्त्वरेति इत्यार्षे श्रीमद् रामायणे वाल्मीकीये युद्धकाण्डे पञ्चाधिकशततमः